हरि ओम् श्री सीता रामचन्द्राभ्यां नमः अथ श्रीमद्वाल्मीकि रामाणे अयोध्याकाण्डे अष्टचत्वारिंशे वर्गे पुरवासिनीनां स्त्रीणां विलापः तेषाम् एवं विषन्नानाम् पीडितानाम् अतीव च बाष्पविप्लुतनेत्राणां सशोकानां मूर्छय अभिगम्य निवृत्तानाम् रामम् नगरवासिनम् उद्गतान्येव सत्त्वानि बभूरमनस्थिनाम् सन्तम् निरयमागम्य पुत्रदारे समागतः अश्रूणि मुमुचुः सर्वे बाष्पेण पीताननः न चारुषन् न चामोदन् वणिजो न प्रसारयन् न चाशोभन्त पचन् गृहमेधिनः नश्च ना दृष्टा नाभ्यनन्दन् विपुलं वधनगमम् पुत्रं प्रतेमजं लब्ध्व जनदी नाभ्यनन्दत गृहे गृहे रुदित्यश्च भक्तारं गृहमागतं व्यगर्हयन्त दुःखात् वाग्भीस्तोत्रैरिवप्युपान् किं न तेषां किं दारे किं धने रव पुत्रैर्वापि सुखैर्वापि येन पश्यन्ति राघवम् एकस पुरुषो लोके लक्ष्मणे सह सीतय यो गच्छति काकुत्थम् रामं परिचरन् आपग कृत पुण्यासाय पद्मिन्यश्च सरन्ति च येषु यास्यति काकुत्स्थ विगाह्य सलिलं शुचि शोभयिष्यन्ति काकुत्स्थम् अटव्यो रम्य कननः अपगासे मनुप स्वानुमन्त च पर्वतः काननं वापि वा यं रामो नो गमिष्यति प्रियातिथिम् विव प्राप्तम् नैनं शक्ष्यञ्च नर्चितुं विचित्र कुसुमापीडय बहुमञ्जेरिधारिणः राघवम् दर्शयिष्यन्ति नगाभ्रमरशालिनः न काले चापि मुख्यानि पुष्पाणि च फलानि च दर्शयिष्यन्त्यनुक्रोशात् गिरयो राममागतम् प्रस्रविष्यन्ति सोयानि विमलानि महीधर विदर्शयन्तो भूयिता निर्धरन पाद पर्वताग्रेश रमयीष्य राघव यमो भयम नात्रे नीति परभवे, भव शोरो पुत्रो दशरथ से पुराती नो दूराय अगछ राघव पाद छाया सुखम तादृशस्य महात्मनः स हिनाथो जनस्यास्य स गतिः स परायणम् वयं परिचरिष्याम सीतां यूयं च राघवम् इति पौर श्रियो भर्तृम् दुःखाता तत्तद् ब्रुवन् योगक्षेमं विधास्यति सीता नारी जनस्यास्य योगक्षेमं करिष्यतिकण्ठीतजनेन च संप्रियता मनोज्ञेन वासेन ऋत चेत कैकय्यायदि चेत् राज्यं स्यात् धर्मं मनाथवत् न नो जीवितेनार्थ कुत पुत्रै कुतो धनै यया पुत्र च भर्ता च तक्च वैश्वर्यकारण कंसा परिहरे धन्यम् कैकै कुलपान्धमयी कैकय्या कै न वयं राज्ये भृतका हि वसेमहि जीवन्त्या दातु जीवन्त्य पुत्रैरपि शपामहे या पुत्रं पार्थिवेन्द्रस्य प्रवासयति निर्घृणा कष्टां प्राप्य सुखं जीवेत् अधर्म्याम् दुष्टचारिणीम् उपद्रुतम् इदम् सर्वम् अनालम्भम् अनायकम् अना कैकेयासु कृते सर्वं। विनाशं उपयास्यस्ति न हि रामे जीविष्यति महीपतिः मृते तस्य व्यक्तं। व्यक्तम् विलोप ते विषम् पिबता ेन पुण्या सुदुःखिता राघवम् वानुगच्छध्वम् अश्रुचिम् वापि गच्छत् मिथ्या प्रव्राजतो राम सह लक्ष्मणः भरते सन्निबद्धास्म सौनिके पशवो यथा पूर्णचन्द्राननश्यामो गूढशत्रोरविन्दम् आजानु बाहु पद्माशु रामो लक्ष्मण पूर्वजः पूर्वाभिभाषे मधुर सत्यवादी महबलः सौम्यश्च सर्वलोकस्य चन्द्रवय प्रियदर्शनः नूनं पुरुषशादूलो मत्तमातङ्गविक्रमः शोभै शच्यानि विचरन् स महार्थ साक्षता विलपन्त्यस्तु नगरे नागरस्य चक्रशु दुःख सन्तप्तः भयागमे इत्येवं विलपन्तीनां स्त्रीणां विष्मसुराघवम् जगामातम् दिनकरो रजली चाभ्यवर्तते नश्च ज्वल न सन्ताप प्रशान्ताध्याय सत्कथ सिमिरेणा न लुब्धेव तदा स नगरी बभौ उपशान्तणिपण्य नष्ट्रय अयोध्या नगरी चासीन् अष्टतारम् विवाम्बरम् तदा श्रियो रामन्मित मातुर यथा सुते भ्रातृ वा विवासते विलप्य दीनारुर्दुर्विचेतसे सुतरितासामधिकोऽपि सौ भवेत् प्रशान्त गीतो नृत्यवदना विभ्रष्ट हर्ष पिता प्रणोदय तदा ह्ययोध्या नगरी भगुवतः महर्ण वै संपि लोदको यथा इत्याशि श्रीमद् रामायणे वाल्मीकि अधिकारे अयोध्याखण्डे अष्टचत्वारिंश सर्गे श्री सीता रामचन्द्रर्मणमस्तु